अथ पञ्जाङ्गजपः शिवाय नमः वो सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमा भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः नमो रुद्राय नमः नमः नमो बलविकरणाय नमो मलाय नमो बलप्रमथनाय नमः नमो मनोन्मनाय नमः अघोरे ोऽ घोरेःभ्यो घोरघोरतरेभ्यः सर्वेःभ्यः सर्वेःभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदा शिवो